गणेशपुराणं क्रीडाखण्डम् अध्यायम् सेवेण्टि ऐट् देवा देवाऊचुः सम्यगुक्तं गुरोवाक्ये येन तृप्ता वयं मुने महास्रोदो वहान्नस्त्वं कर्णधारोऽसि साम्प्रतं क तदस्ते शक्रवरुणकुबेरमधुसूदनाः गुरुभौमशीनाश्च यमाग्न्यनिलकादयः पञ्चामृतं गन्धमाल्यं शमी दुर्वाश्च पल्लवान् फलान्यरण्यजातानि विविधानि च मृत्तिकाः अशर्करासमादाय गण्डकीं तां नदीं ययुः मण्डपं विपुलं कृत्वा भक्त्वा वृक्षाननेकशः लताभिकदलिस्तम्भैः सुचायं च सुशीतलं स्नात्वा नित्यग्रिह्या कृत्वा मूर्तिश्चक्रु सुशोभना सिंहारूढा दशभुजा दशायुध विराजिताः वैनायकी करिकरा नानाभूषा विराजिताः नाना विराजिता सिद्धिबुद्धियुधा पार्श्वे किरीडकुण्डलोज्ज्वलाः पितवस्त्रपरिधाना सर्पभूषा विराचिताः तस्मिन्मण्डपमध्ये तास्थापयित्वा यथा विधि पुपूजः परया भक्रिया षोडशैरुपचारकैः पञ्चामृतैशुद्धजलैर्वस् त्रगन्धादिदीपकैः नैवेद्यैर्विविधैश्चैव भलैरारार्तिकैः शुभैः एवम् सम्पूज्यते मन्त्रम् जेपुत्सविदृतुष्टये अस्तम् यादे सर्वे ऊचुः दीननाथदया सिन्धो योगिहृत्पद्मसंस्थित अनादिमध्यरहितस्वरूपाय नमो नमः जगद्भासचिदाभासज्ञानगम्य नमो नमः मुनिमानसविष्ठाय नमो दैत्यविकादिने त्रिलोके स गुणातीतगुणक्षोभनभो नमः त्रैलोक्यपालनविभो विश्वव्यापिन् नमो नमः मायातीताय भक्तानां कामपूराय ते नमः सोमसूर्याग्निनेत्राय नमो विश्वंभरायते अमेय शक्तये तुभ्यं नमस्ते चन्द्रमौलये चन्द्रगौराय शुद्धाय शुद्धज्ञानकृते नमः क उवाच एवं स्तुवत्सुदेवेषु ते जो राशिरभूत्पुरः सर्वे अददृशो देवा विस्मिता अभवंस्तदा तदस्तत्कृपया देवः सौम्यतेजा अजायत तदस्ते ददृशुर्देवं सिंहारूढं विनायकं दशायुधरं तावद्भुजं दिव्यगिरीडिनम् नानाभूषाभिरामं च मुक्ता दामविभूषितम् व्यालबद्धोदरं विभुं क्षुद्रखण्डाक्वणत्पादं कस्तूरी तिलकोज्ज्वलम् एवं दृष्ट्वा सुरा नमस्कृत्योचिरेतदा यस्चिन्दिदो गुरोर्वाक्यात् स एवायं विनायकः स एव साक्षात् वाङ्मनो गोचरो विभुः जन्मधन्यं धन्यं तपोदानं चनः तद ऊजे सुरान् देवस्तृप्तोऽहं भवतां स्तवैः पूजया चैव भक्र्या च सङ्कष्टीव्रततोऽपि च सङ्कष्टहरमेतच्च स्तोत्रं ख्यादं भविष्यति यः प्रयतो नित्यं समे मान्यो भवेत् सुराः तस्य दर्शनदः सर्वे नश्येयुर्यक्षराक्षसाः भोगान् भुनक्ति विविधा नन्दे मोक्षपदं लभेद शृण्वन्तु मे पुनर्वाक्यं सिन्धुदैत्येन पीडिताः शरणं मे प्रपन्नाश्च यज्ञेदादिवर्जिताः निरुद्धा गण्डकीदेशे स्वधा स्वाहा विवर्जिताः ततो ह्यस्य वधं कर्तुमवतान्दरं मम गिरिजाया गृहे देव भविष्यामि च साम्प्रतम् मयूरेश्वरनामनाहं ख्यातिं यास्ये तदाचवः च वः पदानामाश्रमाणां च प्राप्तिः सिन्धौ हदे मया सुराः सिंहारूढो दशभुजस्तेजोरूपी विनायकः षड्भुजशशिवर्णश्च त्रेदायां बर्हि वाहनः मयूरेश्वरनामा च द्वापरे रक्तवर्णवान् चतुर्बाहुराखुवाहो भूत्वा चाहं गजाननः तथ कलियुगे प्राप्ते श्यामवर्णो दृषन्मयः धूमकेदुरिधिख्यादो भविष्यामि सुरा अहम् शीघ्रमेव करिष्यामि भवतां वाञ्छितं सुराः क एवं निवेद्य तान् देवस्तत्रैवान् दर्दधे विभुः आनदच्च सुराप्रापु स्वकार्यं कृतनिश्चयाः य इदं परमाख्यानं शृणुया श्रावये च यः परया भक्त्या देवं विनायकम् कामान सर्वान् कामानवाप्नोतिप्रत्यब्रह्ममयो भवेद् इति श्रीगणेशपुराणे क्रीडाखण्डे सुरर्थिवरप्रधानं नामाष्टसप्ततितमोऽध्यायः ओ